ैकोनविंशत्यधिकशतमः सर्गः अनसूया तु धर्मज्ञा श्रुत्वा ताम् महतीम् कथाम् रमेयम् कथयाते तु दृढम् मधुरभाषिणी रविरस्तङ्गतः श्रीमानुपो ह्यरजनीम् शुभाम् दिवसम् परिकीर्णानामाहारार्थम् पतत्रिणाम् सन्ध्याकाले निलीनानाम् निद्रार्थम् श्रूयते ध्वनिः एते चाप्यभिषेकार्द्रामुनयः कलशोद्यताः सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः अग्निहोत्रे च ऋषिणा हुते च विधिपूर्वकम् कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः अल्पवर्णाहितरवो घनीभूताः समन्ततः विप्रकृष्टेन्द्रिये देशेन प्रकाशन्ति वैदिशः प्रचरन्ति समन्ततः तपोवनमृगाह्येते वेदितीर्थेषु शेरते सम्प्रवृत्ता निशासीते नक्षत्रसमलङ्कृता जियोत्स्ना प्रावरणश्चन्द्रो दृश्यते अभ्युदितोऽम्बरे गम्यतामनुजानामि रामस्यानुचरी भव कथयन्त्या हि मधुरम् त्वयाहमपि तोषिता अलङ्कुरु च तावत् प्रीतिम् जनयमे वत्स्ये दिव्यालङ्कारशोभिनी सा ददासमलङ्कृत्य सीता सुरसुतोपमा प्रणम् यशिरसापादौ रामम् त्वभिमुखीयययौ तथा तु भूषिताम् सीताम् ददर्शमदताम् वरः राघवः प्रीतिदानेन तपस्विन्याजहर्ष प्रीतिदानम् तपस्विन्या वसनाभरणस्रजाम् प्रहृष्टस्त्व भवद्रामो लक्ष्मणश्च महारथः मैथिल्याः सत्क्रियाम् दृष्ट्वा मानुषेषु सुदुर्लभाम् ततः स शर्वरीम् प्रीतः पुण्याम् शशिनिभाननाम् अर्चितस्तापसैः सर्वैरुवासरघुनन्दनः तस्याम् रात्र्याम् आपृच्छेताम् नरव्याघ्रौ तापसान् वनगोचरान् तावूचुस्तेव न चरास्तापसा धर्मचारिणः वनस्य तस्य सञ्चारम् राक्षसैः समभिप्लुतम् रक्षांसि पुरुषादानि नानारूपाणि राघवा वसन्त्यस्मिन् महारण्ये व्यालाश्चरुधिराशनाः उच्छिष्टम् वा प्रमत्तम् वा तापसम् ब्रह्मचारिणम् अदन्त्यस्मिन् महारण्येतान् निवारय राघव एष पन्था महर्षीणाम् फलान्याहरताम् वने अनेन तु वनम् राघवते क्षमम् इति ऋतः प्राञ्जलिभिः स्तपस्विभिर्द्विजयीकृतः स्वस्थयनः परम् तपः वनम् सभार्यः प्रविवेश राघवः स लक्ष्मणः सूर्य इवा भ्रमण्डलम् त्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनविंशत्यधिकशततमः सर्गः अयोध्याकाण्डम् सम्पूर्णम्